गणेशपुराणं क्रीडाखण्डम् अध्यायं हण्ड्रेड् क उवाच अनेकरूपवान् देवो मयूरेशोऽखिलेश्वरः अतिसुन्दरदेहसन्नागकन्याभिराहृतः गृहं स्वकीयं क्रीडार्थं पूजितो बहुविस्तराद सुगन्धतैलोद्वर्तनैष्णाप्योष्णैरपि तं जलैः दिव्यवस्त्रैरलङ्कारैश्चन्दनैरपि पूज्य च धूपदीपैश्च नैवेद्यैः फलताम्बूलकाञ्चनैः ऊजुकरपुडम्बध्वा वयं यद्दृष्टं देव पदं देवब्रह्माद्यैरपि काङ्क्षितं लोको धन्यतमो जीवितं नः सुजीवितम् आनन्दह्रदमग्नं नो मानसं तापमप्यजद विद्यते जीप्सितं देव तत्तदत्रापि गृह्यताम् अत्र स्थित्वा कतिदिनं पश्चात्त्वं गन्तुमर्हसि मयूरेश उवाच वाञ्छिदम्बो विधास्येहं गिरिजा मां प्रदीक्षते मद्वियोगेन तप्ता सा न किञ्चन यूयं कस्यात्मजास्तस्य दर्शनं चेद् भवेन्मम क उवाच तत ऊजोर्नागकन्या वा सुके पुत्रिका वयं ब्रह्माद्यामुनयो देवायां धियस्य गृहं सदा यस्य विषभवाज्वाला दहे त्रिभुवनं विभो क ये युक्त्वा पितरं प्रापुरङ्गनाः रत्नसिंहासने दीप्ते तिष्ठन्तं पन्नगैर्युदम् सूर्यकोटिनिभं रत्नमालया शोभितं तदा मूर्धस्तरत्नकरणैर्भासयन्तं दिशोऽखिलाः तं दृष्ट्वा वास्तु किं देवो गर्विदं बलवत्तरम् उड्डीय फणासंस्तं मणिं जग्राहसत्वरं येन पादालविवरेणान्धकारो विवरे किल आन्दोलयामासशिरकम्भयन् सप्तपर्वतान् उदद्धीन् सप्त स्वर्गांश्च पादाला निरसातलम् हस्तेनैकेन तं गृह्य मयूरेशस्वलीलया वासु किं निजकण्ठं तं बबन्ध सर्पभूषणः विख्यातः स्वर्गलोके भून् जगर्जानं दतो तद्गर्जितं समाकर्ण्य चुक्षुभे भुवनत्रयं ततः सर्पगणाशेषं नीतुं वासु किमब्रुवन् सजक्रोधसमाविष्टो विस्तार्य निखिलान् फणान् विषाग्निमुत्सृजन् दग्धुं त्रैलोक्यमुपचक्रमे उपाचकः क्षमो जेतुं मम बन्धुं दुवा सुखिम् आवेशेन ययौरोषाद्धावानल इव ज्वलन् शीघ्रं यादो मयूरेशं तिष्ठतिष्ठेधि थिस्त च ब्रवीद ततो नागकुलान्याशु ततः पन्नगवृन्दं तं दृष्ट्वा देवोऽव्यतिष्ठत श्रीखण्डिमस्तके हस्तं न्यधाद्युधाय पन्नगैः स ययौ तम् नमस्कृत्य ग्रसन्निव महाद्भुदः बुधावपक्षौ तद्वादाद्भ्रामयन् भुजगौतमान् कांश्चित् स चापरानपि मारयामः स कांश्चित् स भुजगान् बलवत्तरान् निरीक्ष्यतं मृद केचित्पन्नगाभयविह्वलाः दृष्ट्वा पराक्रमं तस्य शेषश्वासमपास्रजद चिखण्डीपतितस्ते न मूर्छिदो धरणीतले मयूरशं तदशेषो यय त्रैलोक्य विषवह्निस्तं समालोक्य गुणेश्वरः विराड्रूपं समास्ताय रुरोह तत्फणे बालभावेन गर्जन्मेक इवापरः ननर्थकर्तालेन पदाखादेन मर्दयन् अनन्तकोटिब्रह्माण्डभारेण परिपीडितः यज्ञब्रह्माण्डवाही स कथं तद्भारमावहेद बबन्धशेषं हि कटौ रज्जुम्बरो यथा रमन् ततस्ते भुजग सर्वे योद्धुकामास्तमन्वयुः हुङ्गारेणैव तान् सर्वान् पादयामास विघ्नराड अपध्नान्मस्तके कांश्चित् परिश्रान्तस्तदा शेषस्तं नुनाव गुणेश्वरं न स्वरूपं विदुर्देवा ब्रह्माद्यामुनयोऽपि च त्वमेव सृजसि विश्वं पासि हंसि त्वमेव हि नानावतारकर्ता त्वं नाना दैत्यविमर्दनः त्वमेव साक्षी सर्वस्य सर्वान्तर्यामि तां सर्वत्र कारणं त्वं हि कारणानां च कारणम् अज्ञानादभिमानेन योद्धु कामान् क्षमस्वनः क उवाच सम्पादिं च जडायुं च श्येन मानीय सर्पराड निवेद्यजनमस्कृत्य शेषस्तूष्णीं बभूवः ते पितं प्रणिपत्याहुर्दीननाथप्रसादतः बन्धामुक्ता सर्पकृता नमस्ते परमेश्वर क उवाच एवमुक्त्वा मयूरेश बन्धुं तं शिखिनं त्रयः आलिलिङ्गुर्मुदा युक्तास्तदा गद्गदभाषिणः पप्रच्छुकुशलं मात्रे तेजक्षेममधा ब्रुवन् तदत् शिखण्डिनं सोधरुरोगणनायकः पादालाधरणीं प्रायात् ैस्त्रिभिः संयुधो वशी भगासुरं ददर्शार्धमार्गे शिशुहरं चदम् उद्यम्य परशुं दीप्तं शशिसूर्यनिभं विभु तत्याजकण्ठे तं तस्य पशुमारममारयद तच्चिरः परिबभ्रामशृङ्गवज्रागतं तदस्तदुद्धिता बालायोगमाया विमोहिताः मयूरशक्वचास्तीप्राक्रोशन् सर्वयेव ते आसन्ये क्रीडने स्वापे जागृतौ भोजनेऽपि च तमेव ध्यायमानास्ते तन्मुखाद्बहिरायुः गर्भवासादिवोत्तीर्णाद्दृशुस्तं गुणेश्वरम् दृष्वा ते ुदुस्नेहािंगुर्मुदा किला ते ऊजु त्यक्वास्म दैत्यजठरे मृतान् स्थिगो भव स्मृद जठरे जीविता निर्गता स्तः मयूरेशवाचतसर्वेदेशर न्यकृ कदाचि वो माँ चिंता कर कर्मर् क उवाच तदो य मयूरेशो बाल पिरीवे केजिद वीपुरदो नाशब्दरा भृशं केजिच्छत्र केजिदंडचाधारिण धूलिध्वज सलोच्य युर्मुनगणा बहि शिख्यारूढं मयूरशं बालकैः परिवेष्टितम् सर्वे मुनयो विस्मयान्विताः गृहेऽस्मिन् शिशवश्चामी कुतोऽन्येष्य समीपतः तांश्च तान् मेलिताः सर्वे पश्यन्ते देवरूपिणः विचारेण आनन्दह्रदमग्नास्तेन विदुः स्वपरं पुनः नापश्यं स्ते पुनं स्तां स्तान्भ्रान्ता इव व्यलोकयन् मायजा मोहिता सर्वे स्वान् स्वान् बालान् व्यलोकयन् कश्चित्पितरमासाद्य पठति स्म यथा पुरा कश्चिन्मादरमासाद्य पिबति स्म आलिलिङ्गाधजननीं पितरं वापि कश्चन प्रातरं ताडयित्वान्योरुरोध ताडनादिव उमापिधनयं दृष्ट्वा लिङ्ग्य प्रादात्स्तनं मुदा कथं चिरतरं यादयिति क्रोधादभाषद आदायहस्ते गिरिजा मयूरेशं गृहं ययौ सर्वे ते मुनयो स्वमाश्रमम् इति श्रीगणेशपुराणे क्रीडाखण्डे भगासुरवधो नाम शततमोऽध्यायः ओम्